मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेल्व् शुक्लकृष्णगतियोगं श्रीगणेशाय नमः दक्ष उवाच शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयाद संसारं च तथा योगिन् दयया सर्वतारक मुद्गल उवाच कर्मत्वं त्रिविधं विधि कर्म कर्म विकर्मकं स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकं स्वधर्मसंयुतं कर्म भोगवासनयायुधं कर्म संज्ञं विजानीहि कृष्णगति ब्रह्मार्पणतया कर्मस्वधर्मस्थं भवेत् परं शुक्लगतिमयं विद्धिमुक्दितं तदकर्मकम् आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा शुक्लगतिमयं सर्वं जानीहि मुक्दिदायकं चान्द्रं ज्योतिर्धूम रात्री दक्षिणायनमेव यद कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदं तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया येन द्वैतं परित्यज्य ब्रह्मणि निरदो भवेद निःकामिकं कर्मकृत्वा मृदो नरो यदा भवेद रात्रौ दक्षिणार्के वा न तं गृह्णन्ति देवताः देवभोगां स्थिरस्मृत्य ब्रह्मार्पणपरायणं नरं तं किं करिष्यन्ति देवाः स्वर्गसुखप्रदाः अधो दाहे स वैदक्ष भवेद दिवसे समनुप्राप्ते दिवा दैवदगस्तथा उत्तरायणसम्भूते स गच्छेद्भानुमण्डले प्रलये मण्डलस्यैव नाशे पुरुषगो भवेद् महाप्रलयवेलायां प्रकृते पुरुषस्य च नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः साकामकं कर्मकृत्वा कृत्वा दिवसे उत्तरायणे मृतं नरं नदं भानुर्गृह्णादिकामनायुधं सदाखे धूमसंस्तश्च यदा रात्रिः समागता तदा तस्यां समाश्रित्य तदा तिष्ठेत् प्रजापदे दक्षिणायनमानन्दागदं वीक्ष्य तत्क्षणाद विमानवरमारुह्य गच्छेत् स्वर्गं विहाय स चान्द्रं ज्योतिस्समाश्रित्य भोगान् भोङ्ग्रे स्वकर्मजान् कर्म प्रमाणमार्गेण नानास्वर्गपरायणः विधिं तत्र प्रवक्ष्यामि चन्द्रकलासमुद्भवम् अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् इह कर्म पूर्णं नरैस्तदमृदात्मकं भवति चन्द्रगं सर्वं तेन कलायुधो भवत शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः वृद्धियुक्तः स्वयं पूर्णपूर्णिमायां प्रदृश्यते कृष्णपक्षे सुरा सर्वे मृदभोजिनः पिबन्ति चन्द्रसंस्थं तदमृदं तृप्तिकारकम् तेन तृप्तियुताः सर्वे भवन्ति मासमानतः अमायां पतितन्द्रश्च ओषधीषु न अध ओषधयश्चेद्या नरेण नैव निश्चितम् अमायां चन्द्रसंयोगयुक्तास् सुखपरायणः अधश्चन्द्रभवं सर्वमृतं देवभूमिषु चान्द्रस्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः देवानां विविधानां स कर्म कृत्वा सकामकम् कर्मां गदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियां तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितं भोगान्ते पुनरेवासौ मेखमण्डलगो भवेद् तत्र जलमयो भूत्वा पदे वृष्ट्या तदवोषधीगो भूत्वा भवेदन्नमयस्तदः तदो, तदो वीर्यं समाश्रित्य गच्छेत् स जठरे तत्र तत्त्वानितं दक्ष आविशन्दि न संशयः क्षेत्रज्ञ संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे विधिं तस्य प्रवक्ष्यामि गर्भोप निषदीर्भवं तत्रैकदिवसेनैव स्त्रीवीर्येरक् संसृते तस्मिन् सम्मिलनं कृत्वा तदाकारो भवेन्नरः ततस्त्रिदिवसै सोऽपि फेनरूपो भवेन्नरः बहुदः पञ्चदिवसैः पेषीसप्तदिनैस्तथा दस्चा सोपि सोऽपि दिवसफुल्लतां गतः पञ्चविंशतिभिस्तत्र मां सरूपो भवेत् स्वयं मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः द्विमासाव्यां शिरोयुक्तो भवेत्तत्र प्रजापदे त्रिमासैकण्ठसंयुक्तश्चतुर्मासयस्त्वजायुधः पञ्चमासय भवेज्जन्तुरिन्द्रियैः अवयवादि अवयवादिसंयुक्तो न करोम समन्वितः भवेन्मुखेन संयुक्तो मासैषड्भिर्न संशयः तद् इन्द्रियसम्भुदं ज्ञानं भवेत् क्रमेण वै षण्मास्यै परिपूर्णैश्च कृतिपूर्णा भवेत् परा पूर्वकर्मानुसारेण यादृशी योनिरा भवेद् तादृशाकृतिसंयुक्त इन्द्रियैश्च समन्वितः सप्तमास्यैर्भवे जन्तुश्चेतनया समन्वितः उदरे प्रजरे प्रचरेत्स्वपि माधुर् दुःखसमन्वितः अवकाशविहीनः स पीडितो जन्तुभिः सदा मूर्छां गच्छेत् पुनः संज्ञां कोमलोतीव मानवः अष्टमाश्रयस्ततस्तत्र बुद्धियुक्तो भवेन्नरः साङ्ख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् अधिसङ्कोचभावेन पीडितो जन्तुभिस्तथा मादुर्भक्ष्यान्न दोषैस वेदना भवेद। भवेद् गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादराद साङ्ख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदं तेनानन्दभवानां स दृष्ट्वा दुःखं निवृत्तिगः अनन्यमनसा देवं स्तुया स्तोत्रायर्महामदिः गर्भवासप्रशान्त्यर्थं ब्रह्मभूयार्थमादराद गर्भ उवाच नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे अनाधानां प्रणादाय विघ्नेशाय नमो नमः ज्येष्ठराजाय देवाय देवदेवेशमूर्तये अनादये परेशाय चादिपूज्याय दे नमः सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः सर्वादये परब्रह्मन् सर्वेशाय नमो नमः गजाकारस्वरूपाय गजाकारमयायते गजमस्तकधाराय गजेशाय नमो नमः आदिमध्यान्दभावाय स्वानन्दपदये नमः आदिमध्यान्दहीनाय त्वादिमध्यान्दगायते सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः शिवाय शक्तये चैव विष्णवेभानुरूपिणे मायिनां माययानाथ मोहदाय नमो नमः किं स्तौ मि त्वां गणाधीश यत्र वेदादयोपरि योगिनः अतस्त्वां प्रणमाम्यहं रक्षमां गर्भदुःखात्वं त्वामेव शरणागतं जन्म मृत्युविहीनं वै कुरुष्वते पदप्रियम् एवं संस्तुतवन्तं तं नवमासादनन्तरं प्रसूतिजो महावायो बहिः कुर्यान्नरं क्षणाद वायुना चालितसोऽपि मुमूर्छदुःखसंयुतः सङ्कीर्णाङ्गपदे जन्तुर्धरण्यां योनिमार्गदः भवेत् सावधानोऽत्र विस्मृतो ज्ञानमुत्तमं बालभावधरकुर्याद्रोदनं धरणीतले फलहीनं भवेत् सर्वं गर्भागारकृतं मगद ज्ञानादिगमदो भूमौ साधयेत्सर्वमञ्जसा न साधितं नरेत्नात्र कर्मभूमौ प्रजापदे ज्ञानाधिकं तदा सोऽपि गर्भजं दुःखमश्नुदे एवं कृष्णागतिश्चैव कथितादे विशेषतः जन्ममृत्युकरीजन्तो सुखदुःखप्रदायिनि इदं गर्भकृतं स्तोत्रं यः मानवः सभुक्त्वा भुक्त्वा सकलं भोगानन्दे स्वानन्दगो भवेद न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापदे अधो विशेषतो जन्तु निरन्तरमिदं जपेद अधुना कथयिष्यामि शन्यमर्थं सुखप्रदम् शुक्लकृष्ण गतिसंस्थं जनज्ञानं तयोर्भवेद भुक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरन्तरं कर्मस्वधर्मसंयुक्तो नानादैवं सयोगविद उत्तरायणगे भानौ दिवसेवामृदो भवेद स चाग्नि लोकमासाद्य तपोयुक्तो भवेत् सदा तत्र भोगेप्सुतां ज्वाल्य गच्छक्तिं महामतिः तत्राभिमानमुत्सृज्य गच्छेत् तत्रा दिवं दिवाकरम् अधिध्यानेन संयुक्तस्तत्रात्मानं स चिन्तयेद् अन्तरात्मानमुत्सृज्य गच्छेद् विकुण्ठमेव च तत्र अनन्दं परित्यज्य शिवं गच्छेन्न संशयः तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानन्दमञ्जसा तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेद् शुक्लगतिप्रभावेण कथितं ते प्रजापदे यदा दक्षिणगे भानौ रात्रौ वा समृदो भवेद भुक्ति मुक्तिपरसोऽपि गच्छेत् स्वर्गं तदो नरः नाना स्वर्गफलं भुक्त्वा स्वकर्म निर्मिदं नरः पुनः पदे द्विधे भूमौ तत्र मोक्षरुचिर्भवेद तदशुक्लां समाश्रित्य मोक्षं गच्छेत् योगविद एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनं यतैकदेवतां श्रुत्वा तद्भक्तस्तत्परः सदा उपासनाविधानेन स्वधर्मस्थो भजेत् सदां स मृतस्वेष्ठदेवस्य लोकं गच्छेन्न संशयः तत्क्षणाच्चन्द्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ तत्र भोगान् प्रभुञ्जानः सपदेधिश्चितं त्रिगुणात्ममया देवास्तेषां नाशे प्रजापदे यदा गणेश्वरं सोऽपि भजे तत्रैव मानवः अन्धेष्वनन्दको भूत्वा ब्रह्मीभूतो भविष्यति स्वानन्दोनाशहीनश्च सदा ब्रह्मसुखप्रदः अथ स्वानन्दमाश्रित्य ब्रह्मभूतो भविष्यति मरणे दाकहीनश्चेत्तेजस्तत्वं समाश्रितः अथ तस्य सर्वं प्रजापदे एवं विस्तरदो गत्यो कथितं प्रजापदे अदो गणेश्वरं दक्ष समाश्रय चिदप्रदं योगक्षेमं सदे कुर्यादरण्य छेदः सदा न शुक्ल नैव कृष्णादे भविष्यदि गति कदा ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरितेमुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन ना शुक्लकृष्णगधियोगो नाम द्वादशोऽध्यायः इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ओम्